गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् अण्ड् एट् क उवाच ततः पञ्चदशे वर्षे मयूरेशोर्भकैः सह गदस्नातुं नदीं पुण्यां नाम्ना ब्रह्मकमण्डलुं स्नात्वा नित्यम् समाप्याशुमानसैषोडशै पृथक उपचाराय पुपूजस्ते हृदिस्थं गणनायकं केचित् पद्मासनगदं केजिद्बर्हिगदं च दं दिव्यगन्धैर्दिव्यवस्त्रैर्दिव्याय पूजयन। गार्ग्यो मुनिर्मन्दिरे तं ध्यात्वा रत्नान्विदेऽर्चयद यदस्मिन्नन्तरे कस्मात् पि दधेद्वारमस्य तद् यावदुद्धाडयत्येव तावत्तृढतामगाद तत्र आक्रन्दनं चक्रे सचते बालका अपि बालका ऊचुः त्वमेव जननी ताधः कथमभ्यन्तरे स्थितः दत्त्वा कपाडं देवेश क्षमस्वच परार्थान् क्षमस्व च दैत्यो महाबलपराक्रमः यस्य शब्देन महदा भुवनत्रयम् सदा भिन्नखनो दुष्टो व्याक्ररूपी समभ्यवाद व्यादायं वदनं खोरं ग्रसन्निव जगत्त्रयं दृष्टवादं दुद्रुवुर्बालाक्रन्दस्ते दिशो दश सदुद्वारं विनिर्भिद्य मयूरेशं तमाययौ शार्दूलसदृशं रूपं कृत्वा यात्सोऽपि तं क्षणाद पपालसहसा व्याघ्रपृष्ठे लग्नो ययौ च सः भ्रमन् स तु देवो वृक्षम् समारुह्य कुञ्जमध्ये पपातः उभाभ्याम् वदनम् तस्य पराभ्याम् जगृहे दृढम् अन्याभ्यां बहिरानीय ततः परशुनाचिनद नासिकां श्रवणे पादौ पुच्छमग्रभवावुभौ भाव। न मुखं दर्शयेत्युक्त्वा विससर्जगुणेश्वर निजरूपं समास्थाय तथैव विकृतो भवद एवमेव करिष्यामि त्वद्देहमित्युवाच तम् ययौ निजालयं दैत्यो देवस्वं धाम चायययययौ ततो मुनिसुधाभ्रे मुक्रन्दन्धक्व मयूरराट अधिश्रान्दा द्रुमतले शुचाये प्राश्वपंस्तदा अनेन यास्यति पथा द्रक्ष्यामस्तत्पदाम्भुजम् पादौ दक्षिणतस्तेषां दृष्ट्वा चुक्रोधभानुजः अत्यारक्तदृशिरोषाद्ब्रह्माण्डग्राससाहसः बद्ध्वा तान् स्वस्थलं यादो मयूरेशस्तदोगमद नापश्यत्तडे बालान्विस्मयं परमं व्ययौ चिन्तां परमिकं प्राप्तो विना तैः समयूरराड न सुखं क्वापि सम्प्राया मुनि मुनिगणायुः मुनय ऊचुः क्वास्माकं बालका देवप्रादर्णीतास्त्वयाखिलाः विना तैर्नो गमिष्यन्ति प्राणास्त्वय्या गधुना उवाच न किञ्चिदूजे तान्देवो मुञ्चन्नश्रुमुहुर्मुहुः मुखु विचार्य भास्करीं यादःपुरीं दूतैर्निवेदितः दूताऊजुः कोऽपि यादो योद्धुकामो लोकत्रयविनाश्यकृद उग्रारावो महाबाहुर्व्यमाणो बलाद्यमः यम ब्रह्माण्डं चूर्णदां यादि दण्डाखादेन यस्य मे तस्य पुरदो युद्धं कथं बालो विधास्यसि देव उवाच त्वमात्मानं वर्णयस्य रङ्गवद्भांसि मे यम मम वक्रभुवा सर्वं ब्रह्माण्डं च विनश्यति एवमुक्त्वा मयूरेशो यमस्कन्धम् रुरोहसः पादयामासमखिषात्पपादोपरि तत्क्षणाद पराक्रमम् तस्य बुद्ध्वा बद्धाञ्जलिपुडो यमः तुष्टावपरया भक्त्या मयूरेशम् सुरेश्वरम् यम उवाच न ते रूपविदुर्देवा ब्रह्माद्यासनकादयः नेदि नेति च वेदास्त्वां वदन्ति परमेश्वरं स्रष्ठारं पालकं षष्ठे संहर्तारं निजेच्छया दैत्यानां सर्वदुष्टानां नाशकं सर्वरूपिणम् अकस्मादपराधं अपराधं कृतं क्षन्तुत्वमर्हसि क उवाच यवमुक्त्वा पुपूजासौ वस्त्रैरत्नै फलैरमुम् बालानानीयत्तद्धस्ते निवेद्य पुरतः स्थितः आलिलिङ्गुर्मुदा सर्वे परस्परमाधाब्रुवन् बालावोचुः श्रान्तास्त्वद्दर्शनार्थाय बुध्वा निदाय मेनः त्वद्दर्शनाद्बन्धमुक्ताय स्यामोदिजमन्दिरम् क उवाच ततस्ते स्वाश्रमम् प्राप्त मयूरेश पुरस्कृताः यादा नानावादित्रसङ्कुलम् नानाध्वजपदा काढ्यम् पुष्पमादाविभूषितम् यमोऽपि पृष्ठतो यादिद्रष्टुम् तस्य ते सर्वे मुनयोऽपि ययुस्तदा पुपूजुस्तुष्टुवुर्देव लिलिङ्गुर्बालकानपि उवाच देवतान् सर्वान्मुनीन् पूर्वं प्रकुप्यतः अनिताबालकालोपाद्यमस्य क्षणमात्रतः मुनय ऊचुः सर्वत्र रक्षसे त्वं हि सर्वशक्तिस्सदाचनः क उवाच इत्युक्त्वा तमनुज्ञाप्य स्वाश्रमान्मुनयो ययुः यमोऽपि तं नमस्कृत्य गमद देवोऽपि स्वालयं प्राप्य हर्षयामासदरम् इति श्रीगणेशपुराणे क्रीडाखण्डे रवि जगर्वपरिहारो नामाष्टाधिकशततमोऽध्यायः ओम्